तीर्थस्नानम् गोविन्देति गोविन सदा स्नानम् गोविन्देति सदा जपम् गोविन्देति सदा ध्यानम् सदा गोविन्दकीर्तनम् गङ्गे च यमुने चैव गोदावरिसरस्वती नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा कृष्णाभीमरथी च फल्गु सरयूः श्रीगण्डकी गोमती कावेरी कपिला प्रयागविनता नेत्रावतीत्यादयोः नद्यः श्रीहरिपादपङ्कज भवाः कुर्वन्तु वो